भीष्म उवाच एवमुक्त्वा स भगवान् विसृज्य प्रिदिवेश्वरान् नरस्यार्धतनुम् कृत्वा सिंहस्यार्धतनुम् तथा नारसिंहेन वपुषा पाणिम् निष्पिष्य पाणिना भीमरूपो महातेजा व्याधितास्य इवान्तकः हिरण्यकशिपुम् राजन् जगाम हरिरीश्वरः दृष्ट्वा नारसिंहम् महाबलम् ववर्षुः शस्त्रवर्षैस्ते सुसंक्रुद्धास्तदाहरिम् तैर्विसृष्टानि शस्त्राणि भक्षयामासवैहरिः जघानचरणे दैत्यान् सहस्राणि बहून्यपि तान्निहत्य च दैत्येन्द्रान् सर्वान् क्रुद्धान् महाबलान् अभ्यधावत् सुसंक्रुद्धो दैत्येन्द्रम् बलगर्वितम् जीमूतघनसङ्काशो जीमूतघननिःस्वनः जीमूत इव दीप्तौ जीमूत इव वेगवान् देवारिर्दिति जो दुष्टो नृसिंहम् समुपाद्रवत्